कन्या रक्षस्सु साध्वस्मी पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम् अप्रमत्ताप्रमत्तेषु शुश्रूषुरसकृत्वहं व्रजिनात् रयिष्यामि दुर्गेषु विषमेषु च पृष्ठेन वो वहिष्यामि शीघ्रं गतिमभीप्सतः यूयं प्रसादं कुरुत भीमसेनो भजेत आपदस्तरणे प्राणान् धारयेदेन तेन वा सर्वमावृत्य तं धर्ममनुवर्तत आपत्सुयो धारयति धर्मं धर्मविदुत्तमः व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते येन येनाचरेद्धर्मं तस्मिन् गर्हा विद्यते महतोऽत्र श्रियं बाधितां प्राहि मामपि धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः तं तु धर्ममिति प्राहुः मुनयो धर्मवत्सलाः दिव्यज्ञानेन पश्यामि अतीतानागतानहम् तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् अद्यासाद्यसर स्नात्वा विश्रम्य च वनस्पतौ व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ धार्तराष्ट्राद्विवासश्च दहनं वारणावते त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा आवासे शालिहोत्रस्य स च वासं विधास्यति वर्षवाता तपसः अयं पुण्यो वनस्पतिः पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः वैशम्पायन उवाच तस्यास्तद्वचनं श्रुत्वा कुन्तीवचनमब्रवीत् युधिष्ठिरं महाप्राज्ञं सर्वशास्त्रविशारदं कुन्त्युवाच त्वं हि धर्मभृतां श्रेष्ठा मयोक्तं शृणुभारता राक्षसेषा हि धर्मं वदति साधु भावेन दुष्टा सा, किं करिष्यति राक्षसी भजतां पाण्डवं वीरम् अपत्यार्थं यदिच्छसि युधिष्ठिर उवाच एवमेतद्यथाथत्वं हिडिम्बेनात्र संशयः स्थातव्यं तु त्वया सत्ये यथा ब्रूयांसु मध्यमे